पञ्चाशः सर्गः ततः प्रहस्तम् निर्यान्तम् दृष्ट्वा रणकृतोद्यमम् उवाच सस्मितम् रामो विभीषणमरिन्दमः क एष सुमहाकायो बलेन महतावृतः आगच्छति महावेगः किं रूपबलपौरुषः आचक्ष्व मे महाबाहो वीर्यवन्तम् निशाचरम् राघवस्य वच श्रुत्वा प्रत्युवाच विभीषणः एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः लङ्कायाम् राक्षसेन्द्रस्य त्रिभागबलसंवृतः वीर्यबाणस्त्रविच्छूरः सुप्रख्यातपराक्रमः ततः प्रहस्तम् निर्यान्तम् भीमम् भीमपराक्रमम् गर्जन्तम् सुमहाकायम् ददर्श महती सेना वानराणाम् बरीयसाम् अभिसञ्जातघोषाणाम् घोषानां खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः धनूंषि च विचित्राणि राक्षसानाम् जयैषिणाम् प्रगृहीतान्य राजन्त जगुहः पादपांश्चापि पुष्पिताम् स्तुगिरींस्तथा शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् बहूनामश्मृष्टिम् च शरवर्षम् च वर्षत युद्धे बहून् वानरपुङ्गवान् वानराराक्षसांश्चापि निजघ्वर्बहवो शूनैः प्रमथिताः केचित् केचित्तु परमायुधैः परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः निरुच्छ्वासाः पुनः केचित् पतिता जगतीतले विभिन्नहृदयाः केचिदिषु सन्धानसाधिताः केचिद्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि वानराराक्षसैः शूरैः पार्श्वतश्च विदारिताः वानरैश्चापि सङ्क्रुद्धैराक्षसौघाः समम् ततः पादपैर्गिरिशृङ्गैश्च सम्पिष्टावसुधातले वज्रस्पर्शतलैरहस्तैर्मुष्टिभिश्च हता भृशम् मम शोणितमास्येभ्यो विशीर्णदशने क्षणाः आर्तस्वनम् च स्वनताम् सिंहनादम् च नर्दता बभूवतु मुलः शब्दो रक्षसामपि वानराराक्षसाः क्रुद्धा वीरमार्गमनुव्रताः निवृत्तवदनाः क्रूराश्चक्रः कर्माण्यभीतवत् नरान्तकः कुम्भहनुर्महानादः समुन्नतः एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः तेषाम् निपतताम् शीघ्रम् निघ्नताम् चापि वानरान् विविदो गिरिशृङ्गेण जघानैकम् दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम् राक्षसम् क्षिप्रहस्तम् तु समुन्नतमपोचयत् जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीम् शिला पातयामास महानादस्य वक्षसि अथ कुम्भः नुस्तत्र तारेणासाद्यवीर्यवान् वृक्षेण महता सद्यः प्राणाम् अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः चकारकदनम् घोरम् धनुष्पाणिर्वनौकसा आवर्त इव सञ्जज्ञे सेनयोरुभयोस्तदा क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः महता हि राक्षसोरणदुर्मदः अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे वाणराणाम् शरीरैस्तु राक्षसानाम् चमेदिनी मेदिनी बभूवातिचिता घोरैः पर्वतैरिव संवृता सा महीरुधिरोघेण प्रच्छन्ना सम्प्रकाशते सञ्छन्ना माधवे मासि पुष्पितैः हरवीरौघमप्राम् तु भग्नायुधमहाद्रुमा शोणितौघमहातोयाम् यमसागरगामिनी जकृत्प्लीह महापङ्काम् विनिकीर्णान्त्रशैवलाम् भिन्नकाय शिरोमीला मङ्गामयवशाद्वलाम् गृध्रहंस वहाकीर्णाम् कङ्कसारस सेविता मेदः फेनसमाकीर्णामार्तस्तनितनिस्वनाम् ताम् कापुरुषदुस्ताराम् युद्धभूमिमयीम् नदीम् नदीमिव घनापाये हंस सारस सेविताम् राक्षसाः कपि मुख्यास्ते ते रुस्ताम् दुस्तराम् नदीम् यथा पद्मरजोऽध्वस्ताम् नलिनीम् गजयूथपाः ततसृजन्तम् बाणौघान् प्रहस्तम् स्यन्दने स्थितम् ददर्श तरसा नीलो उद्धूत इव वायुः बलात् समीक्ष्याभिद्रुतम् युद्धे प्रहस्तो वाहिनीपतिः रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे सधनुर्धन्विनाम् श्रेष्ठो विकृष्य परमाहवे नीलायव्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ते प्राप्य विशिखा नीलम् विनिर्भिद्य समाहिताः महीम् जग्मुर्म वेगा रोषिता इव पन्नगाः नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः सतम् परमदुर्धर्षमापतन्तम् महाकपिः प्रहस्तम् ताडयामास वृक्षमुत्पाट्य वीर्यवान् स तेनाभिहतः तस्य बाणगणामेव दुरात्मनः अपारयन् वारयितुम् प्रत्यगृह्णान् निमीलितः यथैव गोवृषो वर्षम् शारदम् शीघ्रमागतम् एवमेव प्रहस्तस्य शरवर्षान् दुरासदान् निमीलिताक्षः सहसा नीलसेहे दुरासदान् रोषितः शरवर्षेण सालेन महता महान् प्रजघानः यान् नीलः प्रहस्तस्य महाबलः ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः बभञ्जतरसा नीलो ननाद प्रहस्तो वाहिनीपतिः प्रगृह्यमुसलम् घोरम् स्यन्दनादव पुप्लुवे तावुभौ स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविवकुञ्जरौ उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ काङ्क्षमाणौ यशः प्राप्तुम् वृत्रवासवयोरिव आजघानतदा नीलम् ललाटे मुसलेन सह ततः शोणित दिग्धाङ्गः प्रगृह्य च महातरुम् प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः तम चिन्त्य प्रहारम् स प्रगृह्य मुसलम् महत् अभिदुद्रावबलिनम् बलान् नीलम् प्लवङ्गमम् तमुग्रवेगम् संरब्धमापतन्तम् महाकपिः ततः जग्राह महावेगो महाशिलाम् तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः प्रहस्तस्य शिलाम् नीलो मूर्ध्नि तूर्णमपातयत् नीलेन कपि मुख्येन विमुक्ता महती शिला बिभेदबहुधा घोरा प्रहस्तस्य शिरस्तदा सगता सुर्गतश्रीको गतसत्त्वो गतेन्द्रियः पपातसहसा भूमौ छिन्नमूल विभिन्न शिरसस्तस्य बहु सुश्रावशोणितम् शरीरादपि सुस्राव शरीरा गिरेः प्रस्रवणम् हते प्रहस्ते नीलेन तदकम्प्यम् महाबलम् राक्षसानाम हृष्टानाम् लङ्कामभिजगामः नशे कुत्समवस्थातुम् निहते वाहिनीपतौ सेतुबन्धम् समासाद्य विशीर्णम् सलिलम् यथा हते तस्मिंश्च मोमुख्ये राक्षसास्ते निरुद्यमाः रक्षः पतिगृहम् गत्वा ध्यानमूकत्वमागताः प्राप्ता शोकार्णवन्तीव्रम् विसञ्ज्ञा इव ते भवन् ततस्तु नीलो विजयी महाबलः कर्मणा साम स लक्ष्मणेन प्रहृ्टूपस्तु बभूवयूथप इशे श्रीमद्मा आदि का्ये युद्धकांडे अष्टाश